नारायणीयं दशकं थर्टिसिक्स् मीटर् शार्दूलविक्रीडितम् अत्रे पुत्रतया पुरात्वमनसूयां हि दत्ताभितो जातशिष्यनिबन्धतन्त्रिदमना स्वस्थश्चरन्कान्तया दृष्टो भक्ततमेन एहयमहीपालेन तस्मै वरा नष्टैश्वर्य मुखान् प्रदाय ददिधस्वेनैव चान्देवधम् सत्यम् कर्तुमधार्जुनस्य च वरम् तच्छक्रिमात्रानदम् ब्रह्मद्वेषितदाखिलम् नृपकुलम् हन्तुम् च भूमेर्भरम् सञ्जादो जमदख्नी तो भृगुकुलेम रेणुकाया हरे रामो नाम तदात्म तदात्मजवरजि रथ संत लुर्दशवया गंधर्वराजे मनागासकाम किल मदर प्रदीधुक्त क्रोधा कुलस्याज्ञया सोदरै सममिमां चित्वा धशान्दात्पितुस्तेषाञ्जीवन योगमापिथवरं माता च ते दाद्वरान् पित्रा मातृमुदेस्तवा हृदवि यद्धेनोर्निजादाश्रमाद प्रस्थायाध भृगोर्गिरा हिमगिरा वाराध्य गौरीपतिं लब्ध्वा तत्परशुं तदुक्तदनुजेदी महास्त्रादिकं प्राप्तो मित्रमधाकृतव्रणमुनिम् प्राप्यागमः स्वाश्रमम् आखेडोपगतोऽर्जुनसुरगवी सम्प्राप्त सम्पद्गणैस्त्वत्पित्रा परिपूजितः पुरगतो दुर्मन्त्रिवाचा पुनः गाङ्क्रेतुं सजीवन्ययुङ्कृतकुधिया तेनापि रोष चक्रेण वत्सो वाक्य हृतः शुक्रोज्जिविततादवाक्यचलितक्रोधोध सख्यासमं बिभ्रध्यादमहोदरोपनिहितं चापं कुठारं शरान् आरूढ सह वाह माहिष्मदीमाविश्यन् वाग्भिर्वत्स मदा शुश्रिक्षिदिपदौ सम्प्रास्तु धासङ्गरम् पुत्राणामयुतेन सप्त दशभिश्चाक्षौ हिणीभिर्मः सेनानीभिरनेकमित्रनिवहैर्व्याजृम्भिदा सैन्योत्करो, सद्यस्त्वत्कुठारबाण विदलन्निःशेषसैन्योत्करो तनयस्त्वामा, पदद्धेहयः लीलावारिदनर्मदा जलवलङ्गेश गर्वापह श्रीमद्बाहु सहस्रमुक्त बहुशस्त्रास्त्रं निरुन्धन्नमुं चक्रे त्वय्यथ वैष्णवेऽपि विफले बुद्ध्वाहरिं त्वां मुदाध्ययन्तं मवधी सर्वदोषमवधी सोगात्परं ते पदं भूयोमर्षिद हेखयात्मजगणैस् तादेहदे रेणुकामाघ्नानां हृदयं निरीक्ष्य बहुशो कोरां प्रतिज्ञां वहन् ध्यानानीदरद्धा युद्धस्त्वमकृधा विप्रद्रुहः क्षत्रियान् दिक्चक्रेषु कुठारयन् विशिखयन् निः क्षत्रियां तादो जीवनकृनृपालकुलम् त्रिः सप्त कृत्वो जयन् सन्तर्प्याथ समन्तपञ्चकमहा रक्तह्रदौखे पितृन् यत्नेक्ष्मामपि काश्यपादिषु दिशन् शाल्वेन युध्यन् पुनः कृष्णोमुम् निहनिष्यति दिशमिदो युद्धात् कुमारैर्भवान् यस्यास्त्राणि महेन्द्रभूभृदि तपस्तन्वन् पुनर्मज्जिताम् गोकर्णावधिसागरेण धरणीम् दृष्ट्वार्थितःस्तापसैः व्यादेश्वासधृता नलास्त्रचकिदम् सिन्धुं सुवक्षेपणादुत्सार्योद्धृत केरलो भृगुपदे वादेश संरक्ष माम् सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द